शुक्लाम्बरधरम् विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये ऐश्वरम् परमम् तत्त्वमादिमध्यान्तवर्जितम् आधारम् सर्वभूतानाम् अनाधारमविक्रियम् अनन्तानन्दबोधाम्बु भु निधिमद्भुतविक्रियम् अम्बिकापतिमीशानम् अनीशं प्रणमाम्यहम् ऐषमाद्यन्तनिर्मुक्तमतिशोभनमादरात् नमामि विग्रहं साम्बं संसारामयभेषजं व्यासौ एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ततः स भगवान् प्रीतः पूजां चक्रे यथाविधि तेषामाशीस्ततो गृह्य बहुमानपुरःसरं तैः कुमारप्रभवं च चरितं भूमिभारग्नं, लोकानन्दकरं परं मार्कण्डेयमुखास् सर्वे माध्याह्निकक्रियोत्थिताः चक्रे मृदक्षत कृष्णस्नानमोचक्रे मृदक्षतकुशादि पीतांबर त्रिपु्रम चुवा रुद्राक्ष सूर्योपस्थान संध्या स्मृतिधर्मस्मर शिवपूज तत कृष्ण गंधपुष्पाक्षक्षता चकार विधिवक् नमस्कारुता शुभां जय शङ्करसोमेश रक्षरक्षेति चाब्रवीत् जजाप शिवसाहस्रं भुक्तिमुक्तिप्रदं विभोः अनन्यमानसः शान्तः पद्मासनगतः शुचिः ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितं मार्कण्डेयोवदत्कृष्णं बहुशो मुनिसम्मतम् मार्कण्डेयौवाच त्वं विष्णुः कमलाकान्तः परमात्मा जगद्गुरुः भवत्पूज्यः कथं शम्भुः एतत्सर्वं वदस्वमि व्यासौ वाच अथ ते मुनयः सर्वे मार्कण्डेयं समार्चयन् वचोभिर्वासुदेवश्च पृष्टः साधु त्वयेति च श्रीकृष्णौ साधु साधु मुने पृष्ठं हिताय सकलस्य च अज्ञातं तव नास्त्येव तथापि च वदाम्यहं दैवतं सर्वलोकानां सर्वकारणकारणं ज्योतियत्परमानन्दं सावधानमतिशृणु विश्वसावनमीशानं गुणातीतमजं परम् जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः सशिवः स निरञ्जनः तस्मान् नान्यः परो विद्यते सर्वज्ञः सर्वात्मा सर्वतोमुखः पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वराः तस्मिन् भक्तिर्महादेवे मम धातुश्च निर्मला महेश परमं ब्रह्म शान्तस्सूक्ष्मः परात्परः सर्वान्तरः सर्वसाक्षी निर्विकल्पो निराभासो निस्सङ्गो निरुपद्रवः निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः तस्य चेच्छाभवत्पूर्वं जगत्तित्यन्तकारिणी वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतः दक्षिणाङ्गात् सदाशिवः मध्यतोरुद्रमीशानं कालात्मा तपः कुर्वन्तु भोवत्सा अब्रवीदिति ताञ्छिवः ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः स्तुत्वा तु विविधैः स्तोत्रैः प्रणम्य च पुनः पुनः ब्रह्मविष्णुमहेश्वरा ऊचुः तपः केन प्रकारेण कर्तव्यं परमेश्वर ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः श्रीमहादेव उवाच कायेन मनसा वाच ध्यानपूजाजपादिभिः कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः देवाऊचुः त्वया यत्कथितं शम्भो दुर्ज्ञेयम् अजितात्मभिः सौम्योपायमतो ब्रह्मन् वदकारुण्यवारिधे श्रीशङ्कर उवाच शृणुध्वं सर्वपापग्नं भुक्तिमुक्तिप्रदम्भृणां सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः यया संसारमग्नानां मुक्तिर्भवति शाश्वती शृण्वन्तु तद्विधानं हि महापातकनाशनम् पठतां शृण्वतां सद्यो मुक्तिस्यादनपायिनी ब्रह्मचारीकृतस्नानः शुक्लवासा जितेन्द्रियः भस्मदारीमुनिर्मौनी पद्मासनसमन्वितः ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरं पार्वतीसहितं शम्भुं जटामुकुटमण्डितं दधानं चर्मवैयाघ्रम् चन्द्रार्धकृतशेखरम् त्र्यम्बकम् वृषभारूढम् कृत्तिवासमुज्ज्वलम् सुरार्चितपदद्वन्द्वम् दिव्यभोगम् सुसुन्दरम् विभ्राणम् सुप्रसन्नं च कुठारवरदाभयं दुर्दर्शम् कमलासीनं नागयज्ञोपवीतिनं विश्वकायञ्चिदानन्दम् शुद्धमक्षरमव्ययम् सहस्रशिरशं शर्वम् अनन्तकरसंयुतं सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनं जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनं दंष्ट्राकरालं दुष्प्रेक्ष्यं सूर्यकोटिसमप्रभं निशाकरकराकारं भेषजं भवरोगिणां पिनाकिनं विशालाक्षम् पशूनां पतिमीश्वरम् कालात्मानं कालकालं देवदेवं महेश्वरं ज्ञानवैराग्यसम्पन्नं योगानन्दकरम्परं शाश्वतैश्वर्यसम्पन्नं महायोगीश्वरेश्वरं समस्तशक्तिसंयुक्तम् पुण्यकायं दुरासदं तारकं ब्रह्मसम्पूर्णम् अणीयां सं महत्तमम् यतीनां परमम् ब्रह्मव्रतीनां तपसः फलम् संयमी हृत्समासीनम् तपस्विजनसंवृतम् विधीन्द्रविष्णुनमितम् मुनिसिद्धनिषेवितम् महादेवम् महात्मानम् देवानामपि दैवतम् शान्तम् पवित्रमोङ्कारम् ज्योतिषाम् ज्योतिरुत्तमम् ततः पटेद्धि कवचं मम सर्वाघनाशनं शङ्करो मे शिरः पातु ललाटं फाललोचनः विश्वचक्षुर्दृशौ पातु भ्रुवो रुद्रो ममावतु गण्डौ पातु महेशानः श्रुतिरक्षतु पूर्वजः कपोलो मे महादेवः पातु नासां सदाशिवः मुखं पातु हविर्भोक्ता ष्टौ पातु महेश्वरः दन्तान् रक्षतु देवेशः तालु सोमकलाधरः रसनां परमानन्दः पातु शङ्खौ शिवाप्रियः चुबुकं पातु मे शम्भुः श्मश्रून् शत्रुविनाशनः कूर्चं पातु भवकण्ठं नीलकण्ठोऽवतु ध्रुवम् स्कंध स्कंदु पा बाहु पातु महाभुजः। उपबाहु महवी करो विबुसत्तम अंगुी पातु पंचा पर्वाणी चहस्रपा हृदय पातु सर्वात्मा स्तनौ पातु पिताम उदरम हुतभुक् पा मध्य मे कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः प्राणान्मे प्राणदः पातु नाभिम्भिमक्कटिं विभुः सक्थिनी पातु मे भर्गो जानुनी जनताधिपः जङ्घे पुररिपुः पातु चरणो भवनाशनः शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः इन्द्रियाणि हरः सर्वत्र जयवर्धनः पूर्वे मम मृडः पातु दक्षिणे यमसूदनः वारुण्यां सलिलाधीश उदीच्यां महीधरः ऐशान्यां पातु भूतेशः चाग्नेय्यां रविलोचनः नैरृत्यां भूतभृत्पातु वायव्यां बलवर्धनः ऊर्ध्वं पातुमखद्वेषी ह्यधः संसारनाशनः सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः एवं न्यासविधिं कृत्वा साक्षात् शम्भुमयो भवेत् नमो हिरण्यबाह्वादी पठेन्मन्त्रं तु भक्तितः सद्यो जातादिभिर्मन्त्रैः नमस्कुर्यात् सदाशिवम् ततः सहस्रनामेदम् सर्वकार्यकरं पुण्यम् महापातकनाशनं सर्वगुह्यतमं दिव्यं सर्वलोकहितप्रदं मन्त्राणां परमो मन्त्रो भवदुःखषडोर्भिहृत् ओन्नमः शम्भवे न्यासम् कृत्वा तु विधिवत् सम्यग् ध्यानम् ततश्चरेत् न्यासः अस्य श्रीवेदसाराख्यपरमदिव्यशिवनामस्तोत्रमालामन्त्रस्य श्रीभगवान्नारायणऋषिः अनुष्टुप्छन्दः श्रीपरमात्मा महादेवो देवता न म इति चैतन्यमिति कीलकम् श्रीमहादेवप्रसादसिद्ध्यर्थे जपे विनियोगः अथन्यासः ॐ नमः शम्भवे च अङ्गुष्ठाभ्यां नमः ॐ नमो मयोभवे च तर्जनीभ्यां नमः ॐ नमः शङ्कराय च मध्यमाभ्यां नमः ॐ नमो मयस्कराय च अनामिकाभ्यां नमः ॐ नमः शिवाय च कनिष्ठिकाभ्यां नमः ॐ नमः शितराय च करतलकरपृष्ठाभ्यां नमः एवं हृदयादिन्यासः अथ ध्यानम् कैलासाद्रिनिभं शशाङ्कककलया स्फूर्ज्जटामण्डलं नासालोकनतत्परं त्रिनयनं वीरासनाध्यासितम् कुरंग, मुद्राटङ्ककुरङ्गपाशविलसद्बाहुं प्रसन्नाननं कक्षाबद्धभुजङ्गमं मुनिवृतं वन्दे महेशं वेदसार, वेदसारशिवसहस्रनामस्तोत्रम् ओ नमः पराय देवाय शंकराय महात्मने कामिने नीलकंठा निर्मलाय कपर निर्विकल्पाय कपर्दीक शांतायरहंकारिणे नम अनया सालहस्ताय नम निरंजनाय शर्वाय श्रुताय चरात्मे नम शिवाय गुणातीतायसे महादेवाय वीताय केवलाय महेशाय कहेशय बुधात्मने कैवल्याय सुदेशाय निस्पृहाय स्वू नम सोम विभूषा कालायेज अजिराय जगत-पित्रे जनकाय पिनाकिने निराधाराय सिम्हाय मायातीतायते नमः बीजाय सर्पभूषाय पशूनां पतये नमः पुरन्दराय भद्राय पुरुषाय महीयसे महासन्तोषरूपाय ज्ञानिने शुद्धबुद्धये नमो वृद्धस्वरूपाय तपसे परमात्मने पूर्वजाय सुरेशाय ब्रह्मणेऽनन्तमूर्तये निरक्षराय सूक्ष्माय कैलासपतये नमः निरामयाय कान्ताय निरातङ्काय ते नमः निरालम्बाय विश्वाय नित्याय यतये नमः आत्मा रामाय भव्याय पूज्याय परमेष्ठिने विकर्तनाय सूर्म्याय शम्भवे विश्वरूपिने, ताराय हंसनाथाय प्रतिसर्याय ते नमः परावरेशरुद्राय भवायालङ्घ्यशक्तये इन्द्रध्वंसनिधीशाय कालहन्त्रे मनस्विने विश्वमात्रे जगद्धात्रे जगन्नेत्रे नमो नमः जटिलाय विरागाय पवित्राय मृडाय च निरवद्याय पात्राय स्तेनानां पतये नमः नादाय रविनेत्राय व्योमकेशाय ते नमः चतुर्भोगाय साराय योगिने नन्दगामिने धर्मिष्ठाय वरिष्ठाय पुरत्रय विघातिने गरिष्ठाय गिरीशाय वरदाय नमो नमः व्याघ्रचर्माम्बराय अथ दिशावस्त्राय ते नमः परमप्रेममन्त्राय प्रथमाय सुचक्षुषे आद्याय शूलहस्ताय क्षितिकण्ठाय ते नमः उग्राय वामदेवाय श्रीकण्ठाय नमो नमः विश्वेश्वराय सूर्याय गौरीशाय वराय च मृत्युञ्जयाय वीराय वीरभद्राय ते नमः कामनाशाय गुरवे मुक्तिनाथाय ते नमः विरूपाक्षाय सूताय वह्निनेत्राय ते नमः हविषे हविषेहितकारिणे महाकालाय वैद्याय सङ्घृणेशाय ते नमः नम ओङ्काररूपाय सोमनाथाय ते नमः रामेश्वराय शुचये भौमेशाय नमो नमः त्र्यम्बकाय निरीहाय केदाराय नमो नमः गङ्गाधराय कवये नागनाथाय ते नमः भस्मप्रियाय सूद्याय लक्ष्मीशाय नमो नमः पूर्णाय भूतपतये सर्वज्ञाय दयालवे धर्माय धनदेशाय गजचर्माम्बराय च हालनेत्राय यज्ञाय श्रीशैलपतये नमः रेतसे नीललोहिताय नमो नमः अन्धकासुरहन्त्रे च पावनाय बलाय चा। चैतन्याय त्रिनेत्राय पानाय बलायतन दक्षनाशक्रशिसे जय रूपा ते नम सहस्रचरणायाथ योगी हृदवासी सद्योजाताय वंद्याय च प्रगल्भाय प्रगलभायत्री वल्लभाय व्योमाकाराय विप्राय नमो विप्रियाय च अघोराय सुवेशाय श्वेतरूपाय ते नमः विद्वत्तमाय चित्राय विश्वग्रासाय नन्दिने अधर्मशत्रुरूपाय दुन्दुभेर्मथनाय च अजातशत्रवेतुभ्यं जगत्प्राणाय ते नमः नमो ब्रह्मशिरश्छेत्रे पञ्चवक्त्राय खड्गिने नमस्ते हरिकेशाय पञ्चवर्णाय वज्रिणे नमः पञ्चाक्षरायाथ गोवर्धनधराय च प्रभवे सर्वलोकानां कालकूटविषादिने सिद्धेश्वराय सिद्धाय सहस्रवदनाय नमःसहस्रहस्ताय सहस्रनयनाय च सहस्रमूर्तये तुभ्यं जिष्णवे जितशत्रवे काशीनाथाय गेह्याय नमस्ते विश्वसाक्षिणे हेतवे सर्वजीवानां पालकाय नमो नमः जगत्संहारकायाथ त्रिधावस्थाय नमः एकादशस्वरूपाय नमस्ते वह्निमूर्तये नरसिंहमहादर्पघातिने शरभाय च भस्माभ्यक्ताय तीर्थ्याय जाह्नवीजनकाय च देवदानवदैत्यानां गुरवेते नमो नमः दलिताञ्जनभासाय नमो वायुस्वरूपिणे स्वेच्छामन्त्रस्वरूपाय प्रसिद्धाय आत्मने नमः वृषध्वजाय गोष्ठ्याय जगत्यन्त्रप्रवर्तिने अनाथाय प्रजेशाय विष्णुगर्वहराय च हरेर्विधातु कलहनाशनाय नमो नमः नमस्ते दशहस्ताय गगनाय नमो नमः कैवल्य फलदात्रेच परमाय नमो नमः ज्ञानाय ज्ञानगम्याय घण्टारावप्रियाय च पद्मासनाय पुष्टाय निर्वाणाय नमो नमः अयोनये सुदेहाय ह्युत्तमाय नमो नमः अन्तकालाधिपतये विशालाक्षाय ते नमः कुबेरबन्धवे तुभ्यं सोमाय सुखदायिने अमृतेश्वररूपाय कौबेराय नमो नमः प्रियंवदसमर्थाय धन्विने विभवे नमः गिरिशाय गिरित्राय गिरिशन्ताय ते नमः पारिजाताय बृहते पञ्चयज्ञाय ते नमः तरुणाय विशिष्टाय बालरूपधराय च जीवितेशाय तुष्टाय पुष्टानां पतये नमः भवहेत्यै हिरण्याय कनिष्ठाय नमो नमः मध्यमाय विधात्रेते शूराय सुभगाय च आदित्यतापनायाथ नमस्ते रुद्रमञ्जवे महाह्रदाय ह्रस्वाय वामनाय नमो नमः नमस्तत्पुरुषायाथ चतुर्हस्ताय नमः नमो धूर्जटये तुभ्यम् जगदीशायते ते नमः जगन्नाथस्वरूपाय लीलाविग्रहरूपिणे अनघाय नमस्तुभ्यम् अमराय नमो नमः अमृताय नमस्तुभ्यम् आच्छात्राय नमो नमः लोकाध्यक्षाय वैतुभ्यम् अनादिनिधनाय च व्यक्तेतराय व्यक्ताय नमस्ते परमाणवे लघुस्थूलस्वरूपाय नमः परशुधारिणे नमः खड्वाङ्गहस्ताय नागहस्ताय ते नमः वरदाभयहस्ताय घण्टाहस्ताय ते नमः घस्मराय नमस्तुभ्यम् अजिताय नमो नमः अणिमादिगुणेशाय पञ्चब्रह्ममयाय च पुरातनाय शुद्धाय बलप्रमथनाय च पुण्योदयाय पद्माय विरक्ताय नमो नमः उदाराय विचित्राय विचित्रगतये नमः वाग्विशुद्धाय चितये निर्गुणाय नमो नमः परमेशाय शेषाय नमः पद्मधराय च महेन्द्राय सुशीलाय ्रिियाय महापराक्रमायाथ महापराक्र याथ नमस्ते काल रूपिणे विष्टस्रवसेल लोक चूड़नाये नम साम्राज्यकृक्षा नमस्तुभ्यं ष्रीमते वरेण्याय नमस्तुभ्यं यूपा ते नम पर ज्योतिषे पद्मय तत्त्वाधिकाय सर्वाय नमो दीर्घाय स्रग्विणे नमस्ते पांडुरंगाय घोराय ब्रह्मरूपिणे निष्कलाय नमस्तुभ्यं प्रपथ्याय नमो नमः नमो जयाय क्षेत्राय क्षेत्राणां पतये नमः कलाधराय पूताय पंचभूतात्मने नमः अनिर्विण्णाय तथ्याय पापनाशकराय च विश्वतश्चक्षुषे तुभ्यं मन्त्रिणेऽनन्तरूपिणे सिद्धसाधकरूपाय मेदिनीरूपिणे नमः अगण्याय प्रतापाय सुधाहस्ताय ते नमः श्रीवल्लभायै ध्रियाय स्थाणवे मधुराय च उपाधिरहितायाथ नमः सुकृतराशये नमो मुनीश्वरायाथ शिवानन्दाय ते नमः रिपुघ्नाय नमस्तेजोराशयेनुत्तमाय च च चतुर्मूर्तिवपुस्थाय नमो बुद्धीन्द्रियात्मने उपद्रवहरायाथ प्रियसन्दर्शनाय भूतनाथाय मूलाय वीतरागाय ते नमः नैष्कर्म्याय विरूपाय षट्चक्राय विशुद्धये कुलेशाय व निर्भर्त्रे भुवनेशाय ते नमः हिरण्यबाहवे वरदाय नमो नमः आदिदेवाय भाग्याय चन्द्रसञ्जीवनाय च हराय बहुरूपाय प्रसन्नाय नमो नमः आनन्दपूरितायाथ कूटस्थाय नमो नमः नमो मोक्षफलायाथ शाश्वताय विरागिने यज्ञभोक्त्रे सुषेणाय दक्षयज्ञविघातिने नमः सर्वात्मने तुभ्यं विश्वपालाय ते नमः विश्वगर्भाय गर्भाय देवगर्भायते ते नमः संसारार्णवमग्नानां समुद्धरणहेतवे मुनिप्रियाय खल्याय मूलप्रकृतये नमः समस्तसिद्धयेते यो मूर्तयेते नमो नमः आश्रमस्थापनायाथ वर्णिने सुन्दराय च मृगबाणार्पणायाथ शारदावल्लभाय विचित्रमायिने तुभ्यम् अलङ्करिष्णवे नमः बहिर्मुखमहादर्पमथनाय नमो नमः नमोऽष्टमूर्तयेतुभ्यं निष्कलङ्काय ते नमः नमोहव्याय भोज्याय यज्ञनाथाय ते नमः नमो मेध्याय मुख्याय विशिष्टाय नमो नमः अम्बिकापतयेतुभ्यम् महादान्ताय ते नमः सत्यप्रियाय सत्याय प्रियनित्याय ते नमः नित्यतृप्ताय वेदित्रे मृदुहस्ताय ते नमः अर्धनारीश्वरायाथ कुठारायुधपाणये वराहभेदिनेतुभ्यं नमः कङ्कालधारिणे महार्थाय सुसत्त्वाय कीर्तिंभाये नमकृता गमायाथ कृतागयाथ वेदिताय अश्रोत्राय श्रुतिमते बहुश्रुतिधराय चाण नमस्तुभ्यं गंधवघ्राणकिणे पादीनायोढ़ गत नम तृक्षाय जननेत्राय नमस्तुभ्यं चिदात्मने रसज्ञाय नमस्तुभ्यं रसनारहिताय च अमूर्तायाथमूर्ताय सदसस्पतये नमः नमो जितेन्द्रियायाथ परञ्ज्योतिस्वरूपिणे नमस्ते सर्वमर्त्यानाम् आदिकर्त्रे भुवन्तये सर्गस्थितिविनाशानां कर्त्रेते प्रेरकाय च नमोऽन्तर्यामिणे सर्वहृदिस्थाय नमो नमः चक्रभ्रमणकर्त्रेते पुराणाय नमो नमः वामदक्षिणहस्तोत्थलोकेशहरिशालिने नमः सकलकल्याणदायिने प्रसवाय च स्वभावोदारधीराय सूत्रकाराय ते नमः विषयार्णवमग्नानां समुद्धरणसेतवे अस्नेहस्नेहरूपाय वार्तातिक्रान्तवर्तिने यत्र सर्वं यतः सर्वं सर्वं यत्र नमो नमः नमो महार्णवायाथ भास्कराय नमो नमः भक्तिगम्याय भक्तानां सुलभाय नमो नमः दुष्प्रदर्शाय दुष्टानां विजयाय विवेकिनाम् अतर्किताय लोकाय सुलोकाय नमो नमः पूरयित्रे विशेषाय शुभाय च नमो नमः नमः कर्पूरदेहाय सर्पहाराय ते नमः नमः संसारपाराय कमनीयाय ते नमः वह्निदर्पविघाताय वायुदर्पविघातिने जरातिगायवीर्याय विश्वस्य व्यापिने नमः सूर्यकोटिप्रकाशाय निष्क्रियाय नमो नमः चन्द्रकोटिशुशीताय विमलाय नमो नमः नमो गूढस्वरूपाय दिशां च पतये नमः नमः सत्यप्रतिज्ञाय समस्ताय समाधये एकरूपाय शन्याय विश्वनाविह्वदाय च सर्वोत्तमाय कालाय प्राणिनां सुहृदे नमः अन्नानां पतये तुभ्यं चिन्मात्राय नमो नमः ध्येयाय ध्यानगम्याय ध्यानरूपाय नमः नमस्ते शाश्वतैश्वर्य विभवाय नमो नमः वरिष्ठायातगोप्त्रे च निधनायाग्रजाय च योगीश्वराय योगाय योगगम्याय ते नमः नमः प्राणेश्वरायाथ सर्वशक्तिधराय च धर्माधाराय धन्याय पुष्कलाय नमो नमः महेन्द्रोपेन्द्रचन्दार्कनमिताय नमो नमः महर्षिबन्दितायाथ प्रकाशाय सुधर्मिणे नमो हिरण्यगर्भाय नमो हिरण्मयाय जगद्बीजाय हरये सेव्याय क्रतवे नमः आधिपत्याय कामाय यशसे ते नमो ब्रह्ममया याथ सकलाय नमो नमः नमस्ते रुक्मवर्णाय नमस्ते ब्रह्मयोनये योगात्मनेत्वभीताय दिव्यनृत्ताय ते नमः जगतामेकबीजाय मायाबीजाय ते नमः सर्वहृत्सन्निविष्टाय ब्रह्मचक्रभ्रमाय च ब्रह्मानन्दाय महते ब्रह्मण्याय नमो नमः भूमिभारार्तिसंहर्त्रे विधिसारथये नमः हिरण्यगर्भपुत्राणां प्राणसंरक्षणाय च दुर्वाससे षट्विकाररहिताय नमो नमः नमो देहार्धकान्ताय षडूर्भिरहिताय च प्रकृत्यै भवनाशाय ताम्राय परमेष्ठिने अनन्तकोटिब्रह्माण्डनायकाय नमो नमः एकाकिने निर्मलाय द्रविणाय दमाय च शिपिविष्टाय बन्धवे त्रिविष्टपेश्वरायाथ नमो व्याघ्रेश्वराय विश्वेश्वराय दात्रेते नमश्चन्द्रेश्वराय व्याधेश्वरायायुधिने यज्ञकेशाय ते नमः जैगीषव्येश्वरायाथ दिवोदासेश्वराय च नागेश्वराय न्यायाय न्यायनिर्वाहकाय च शरण्याय सुपात्राय कालचक्रप्रवर्तिने विचक्षणाय दंष्ट्राय वेदाश्वाय नमो नमः नीलजीमूतदेहाय परात्मज्योतिषे नमः शरणागतपालाय महाबलपराय च सर्वपापहरायाथ महानादाय ते नमः कृष्णस्य जयदात्रेते बिल्वकेशाय ते नमः दिव्यभोगाय दूताय कोविदाय नमो नमः कामपाशाय चित्राय चित्राङ्गाय नमो नमः नमो मातामहायाथ नमस्ते मातरिश्वने निस्सङ्गाय सुनेत्राय विद्येशाय जयाय च व्याघ्रसंमर्दनायाथ मध्यस्थाय नमो नमः अङ्गुष्टशिरसालङ्कानाथदर्पहराय च वैयाघ्रपुरवासाय नमः सर्वेश्वराय च नमः परावरेशाय जगत्स्थावरमूर्तये सुदीप्ताय नम नमो नमः नमो ब्रह्माण्डमालाय गोधराय नमः पातालवासिने नमस्ताराधिनाथाय वागीशाय नमो नमः सदाचाराय गौराय स्वायुधाय नमो नमः अप्रमेयाय, प्रमाणाय नमो नमः कलिग्रासाय भक्तानां भुक्तिमुक्तिप्रदायिने संसारमोचनायाथ वर्णिने लिङ्गरूपिणे सच्चिदानन्दरूपाय पापराशिहराय च गजारये विदेहाय त्रिलिङ्गरहिताय च अचिन्त्यशक्त्यये लङ्घ्यशासनायाच्छ्युताय च नमो राजाधिराजाय चैतन्यविषयाय च नमः शुद्धात्मने ब्रह्मज्योतिषे स्वस्तिदाय मयो भवेच च दुर्ज्ञेय यज्वने चक्रेश्वराय वैतुभ्यं नमो नक्षत्रमालिने अनर्थनाशनाय अथ भस्मले पकराय सदानन्दाय विदुषे सगुणाय विरोधिने दुर्गमाय शुभाङ्गाय मृगव्याधाय ते नमः प्रियाय धर्मधाम्ने ते प्रयोगाय विभागिने नाद्यायामृतपायाथ सोमपाय तपस्विने नमो विचित्रवेषाय पुष्टिसंवर्धनाय च चिरन्तनाय धनुषे वृक्षाणां पतये नमः निर्मायाग्रगण्याय व्योमातीताय ते नमः संवत्सराय लोप्याय स्थानदाय स्थविष्णवे व्यवसाय फलान्ताय महाकर्तृप्रियाय च गुणत्रयस्वरूपाय नमः सिद्धस्वरूपिणे नमः स्वरूपरूपाय स्वेच्छाय पुरुषाय कालात्पराय भेद्याय नमो ब्रह्माण्डरूपिणे अनित्यनित्यरूपाय तदन्तर्वर्तिने नमः नमस्तीथ्याय कूल्याय पूर्णाय वटवे नमः पञ्चतन्मात्ररूपाय पञ्चकर्मेन्द्रियात्मने विशृङ्खलाय दर्पाय नमस्ते विषयात्मने अनवद्याय शास्त्राय स्वतन्त्रायामृताय च नमः प्रौढाय प्राज्ञाय योगारूढाय ते नमः मन्त्रज्ञाय प्रगल्भाय प्रदीपविमलाय च विश्ववासाय दक्षाय वेदनिश्वसिताय च यज्ञाङ्गाय सुवीराय नागचूडाय ते नमः व्याघ्राय बाणहस्ताय नमस्कन्दाय साक्षिणे क्षेत्रज्ञाय रहस्याय स्वस्थानाय वरीयसे गहनाय विरामाय सिद्धान्ताय नमो नमः महीधराय गृह्याय वटवृक्षाय ते नमः ज्ञानदीपाय दुर्गाय सिद्धान्तैरनिश्चिताय च श्रीमते मुक्तिबीजाय कुशलाय विवासिने प्रेरकाय विशोकाय हविर्धानाय ते नमः गम्भीराय सहायाय भोजनाय सुभोगिने महायज्ञाय तीक्ष्णाय नमस्ते भूतचारिणे नमः प्रतिष्ठितायत था। महोत्साहाय ते नमः परमार्थाय शिशवे कपालिने सहजा गृहस्था संध्या सद्भि संपूजिताथ वितलासुरघाति जनायोगा कामेशय किटिने अमोघ विक्रमाथ नग्नाय दलघाति सङ्ग्रामाय नरेशाय नमस्ते शुचिभस्मने भूतिप्रियाय भूम्ने ते सेनाय चतुराय च मनुष्यबाह्यगतये कृतज्ञाय शिखण्डिने निर्लेपाय जटार्द्राय महाकालाय मेरवे नमो विरूपरूपाय शक्तिगम्याय ते नमः नमः सर्वाय सदसत् सत्याय सुव्रताय च नमो भक्तिप्रियायाथ श्वेतरक्षापराय च सुकुमारमहापापहराय रथिने नमः नमस्ते धर्मराजाय धनाध्यक्षाय सिद्धये महाभूताय कल्पाय कल्पनारहिताय च ख्याताय जितविश्वाय गोकर्णाय सुचारवे श्रोत्रियाय वदान्याय दुर्लभाय कुटुम्बिने विरजाय सुगन्धाय नमो विश्वम्भराय च भवातीताय तिष्याय नमस्ते सामगाय चिन्मयाय नमः शुक्लज्योतिषे क्षेत्रगाय च अद्वैताय द्वितीयाय कल्पराजाय भोगिने सर्वभोगसमृद्धाय साम्परायाय ते नमः नमस्ते स्वप्रकाशाय स्वच्छन्दाय सुतन्तवे सर्वज्ञमूर्तये तुभ्यं गुह्येशाय सुशान्तये शारदाय सुशीलाय कौशिकाय धनाय अभिरामाय तत्वाय व्यालकल्पाय ते नमः अरिष्टमथनायाथ सुप्रतीकाय ते नमः आशवे ब्रह्मगर्भाय वरुणायाद्रये नमः नमः कालाग्निरुद्राय श्यामाय सुजनाय च अहिर्बुध्न्याय जाराय दुष्टानां नमः नमः समयनाथाय समयाय गुहाय च दुर्लङ्घ्याय नमस्तुभ्यं छन्दःसाराय दंष्ठिने ज्योतिर्लिङ्गाय मित्राय जगतां हितकारिणे नमःुण्यनिधये श्लोकाय जयशालिने ज्ञानोदयाय बीजाय जगद्विभ्रमहेतवे अवधूताय शिष्टाय छन्दसां नमः नमः गुख्याय गुह्याय सर्वबन्धविमोचिने उदारकीर्तये शश्वत् प्रसन्नवदनाय च वसवे वेदकाराय नमो भ्राजिष्णुजिष्णवे चक्रिने देवदेवाय गदाहस्ताय पुत्रिणे पारिजातसु पुष्पाय गणाधिपतये नमः सर्वशाकाधिपतये प्रजनेशायते ते नमः सूक्ष्मप्रमाणभूताय सुरपार्श्वगताय च अशरीरशरीराय अपगल्भाय ते नमः सुकेशाय सुपुष्पाय श्रुतये पुष्पमालिने मुनिध्येयाय मुनये बीजसंस्तमरीचये चामुण्डाजनकायाथ नमस्ते कृत्तिवाससे व्युक्तकेशाय योग्याय धर्मपीठाय ते नमः महावीर्याय दीप्ताय बुद्धाय शनये नमः विशिष्टेष्टाय सेनान्ये द्विपदे कारणाय च कारणानां भगवते बाणदर्पहराय च अतीन्द्रियाय रम्याय जनानन्दकराय च सदाशिवाय सौम्याय चिन्त्याय शशिमौलये नमस्ते जातुकर्ण्याय सूर्याध्यक्षाय ते नमः ज्योतिषे कुण्डलीशस्य वरदाय भयाय च वसन्ताय सुरभये जयारिमथनाय च प्रेम्णे पुरञ्जया याथ पृषदश्वाय ते नमः रोचिष्णवे सुरजिते नमः नमस्ते चञ्चरीकाय तमिस्रमथनाय च प्रमाथिने निदाघाय चित्रगर्भाय ते नमः शिवालयाय स्तुत्याय तीर्थदेवाय ते नमः पत्नीनां पतये तुभ्यं विचित्रगतये नमः नमो निस्थूलरूपाय सवित्रे तपसे नमः अहङ्कारस्वरूपाय मेधाधिपतये नमः अपाराय तत्त्वविदे क्षयद्वीराय ते नमः पञ्चास्यायाग्रगण्याय विष्णुप्राणेश्वराय च अगोचराय याम्याय क्षेम्याय वडभाग्नये विक्रमाय स्वतन्त्राय स्वतन्त्रगतये नमः वनानां पतये तुभ्यं नमस्ते जमदग्नये अनावृताय मुक्ताय मातृकापतये नमः नमस्ते बीजकोशाय दिव्यानन्दाय ते नमः नमस्ते विश्वदेवाय शान्तरागाय ते नमः विलोचनसुदेवाय हेमगर्भाय ते नमः अनाद्यन्ताय चण्डाय नमो नाथाय नमः ज्ञानस्कन्दाय तुष्टाय कपिलाय महर्षये नमस्त्रिकाग्निः कालाय देवसिंहाय नमः नमस्ते मणिपूराय चतुर्वेदाय नमः स्वरूपाणां स्वभावाय चान्तर्यागाय ते नमः नमः श्लोक्याय वन्याय महाधर्माय ते नमः प्रसन्नाय नमस्तुभ्यं सर्वात्मज्योतिषे नमः स्वयं भुवेतृमूर्तीनामध्वातीताय ते नमः सदाशिवोवाच जपन्तु मामिकां देवाः नाम्नाम् दशशतीमिमां मम चातिप्रियकरीं महामोक्षप्रदायिनीम् सङ्ग्रामे जयदात्रीं तु सर्वसिद्धिकरीं शुभां यप्पटेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते पुत्रकामो लभेत्पुत्रं राज्यकामस्तु राजतां प्राप्नुयात्परया भक्त्या धनधान्यादिकं बहु शिवालये नदीतीरे बिल्बमूले विशेषतः प्रजपेत् सिद्धिदाम् देवाः शुचौदेशे शमीतले धनकामस्तु जुहुयात् घृताक्तेर्बिल्बपत्रकैः मोक्षकामस्तु गव्येना घृतेन प्रतिनामतः आयुष्कामस्तु जुहुयात् आज्येन मधुना तथा पुत्रकामस्तु जुहुयात् तिलाक्ते न तताम्भसा मत्समीपे प्रदोषे नत्वा भक्त्या जपेन्नरः जीवनसरूपताम् प्राप्य सायुज्यम् मम चाप्नुयात् कालोऽपि जनशास्ता हि मम भक्तं न पश्यति अहम् पुरसरस्तस्य नेष्यामि गगनस्थलम् त्रिसन्ध्यं यः भक्त्या वत्सरं नियमान्वितः मच्चित्तो मन्मना भूत्वा साक्षान्मोक्षमवाप्नुयात् रुद्रपाठेन यत् पुण्यम् यत्पुण्यम् भेदपाठतः तत्पुण्यम् लभते योऽसावेकावृत्या पठेदिमाम् कन्याकोटिप्रदानेन यत्फलम् लभते नरः तत्फलम् लभते सम्यक् नाम्नाम् दशशतम् जपन् अश्वमेधसहस्रस्य यत्फलम लभते नरः कपिलाशतदानस्य तत्फलं पठनाद्भवेत् यशृणोति सदा विद्यां श्रावयेद्वापि भक्तितः सोपि मुक्तिमवाप्नोति यत्र गत्वा न शोचति यक्षराक्षसवेताल ग्रहकूष्माण्डभैरवाः पठनादस्य नश्यन्ती जीवेच्च शरदां शतं ब्रह्महत्यादिपापानां नाशस्यावणेन तु किं पुनः पठनादस्य मुक्तिस्यादनपायिनी इत्युक्त्वा समःदेवो भगवान् परमेश्वरः पुनरप्याह भगवान् कृपया परया दीयतां मम भक्तेभ्यः मदुक्तम् भवघातकम् इत्युक्त्वान्तर्दधे देवः परानन्दस्वरूपधृक् श्रीकृष्ण उवाच एतदेव लब्धवान् कुम्भसम्भवात् अरण्ये दण्डकाख्ये तु प्रजजापरघूद्वहः नित्यम् तृषवणस्नायी त्रिसन्ध्यम् सुस्मरन् शिवम् तदा सो देवदेवोऽपि प्रत्यक्षप्राहराघवम् महापाशुपतम् दिव्यम् प्रगृहाणरघोद्वः एतदासाद्य पौलस्त्यं जहिमाशोकमर्हसि तदा प्रभृतिभूदेवाः प्रजपन्ति सुभक्तितः गृह्णन्तु परया भक्त्या भवन्तः सर्व एव हि श्रीव्यास उवाच ततस्ते मुनयः सर्वे जगृहुर्मुनिपुङ्गवाः गृह्णन्तु मम वाक्यं तु मुक्तिम् प्राप्स्यत निश्चिताः भवद्भिरात्मशिष्येभ्यो दीयतामिदमादरात् नाम्नां सहस्रमेतद्धि लिखितं यन्निकेतने अविमुक्तं तु तद्गेहम् नित्यं तिष्ठति शङ्करः अनेन मन्त्रितम् भस्मखिलदुष्टविनाशनम् पिशाचस्य विनाशाय जप्तव्यमिदमुत्तमम् नाम्नां सहस्रेण समं किञ्चिन्न विद्यते इति पाद्मे पुराणे पञ्चपञ्चाशत्सहस्रिकायां संहितायाम् उत्तरभागे बिल्बकेश्वरमाहात्म्ये श्रीकृष्णमार्कण्डेयसंवादे वेदसारशिवसहस्रनामस्तोत्रम् नाम एकोननवतितमोऽध्यायः ओ